मार्कण्डेयपुराणम् अध्यायं सिक्स्टिसिक्स् ब्राह्मणवाक्यवर्णनं मार्कण्डेय उवाच एवं निरस्यमानास्ता हरिणेन मृगाङ्गनाः श्रुत्वा स्वरोचिरात्मानं मेने पतितं यथा कार च मनसा मुनिम चक्रवाक मृग प्रोक्त मृगचरियाु सभीर्भूय वर्धमनो आक्षिप्त निर्वेदको रेमें वर्ष चा निषट हिन्दुधर्माविरोधेन कुर्वन् धर्माश्रिधा क्रियाः भुङ्े स्वरोचिर्विषयान् सहताभिरुदारधीः ततश्च ज्ञरेतस्य त्रयः पुत्रात् स्वरोचिषः विजयो मेरुनन्दश्च प्रभावश्च महाबलः मनोरमा च विजयं प्रासूतेन्दीवरात्मजा विभावरी मेरुनन्दं प्रभावं च कलावती पत्मिनी नाम विद्या सर्वभोगोपपादिका स तेषां तत्प्रभावेण पिता चक्रे पुरत्रयम् प्राच्यां तु विजयं नाम कामरूपे नगोत्तमे विजयाय सुदायादौ सदौ पुरमुत्तमम् उदीच्यां मेरुनन्दस्य पुरीं नन्दवतीमिति ख्यादां चकारप्रोत्तुङ्ग वप्राकारमालिनीं कलावदी सुदस्या विप्रभावस्य निवेशितं पुरं तालमिधिख्यादं दक्षिणापथमाश्रितं एवं निवेश्य पुत्रान् स पुरेषु पुरुषर्षभ रेमे ताभित्समं विप्र मनोज्ञास्वध्रिभूमिषु ेकता दुगौरण्य विहरन् स धनुर्धर चकर्षनुरालोक्य वराहमगम अदाहिद्ये तम तदा हरिणांगना मय्य पाथ्यदाबाण पुनः पुनःपुन किमनेन हदेनाद्य मामाशु विनिपादय त्वया निपातितो बाणो दुःखान् मां मोक्षयिष्यति स्वरोचिरुवाच न ते शरीरं सरुजमस्माभिरुपलक्ष्यते किन्नु तत्कारणं येन त्वं प्राणान् आदुमिच्छसि मृग्युवाच अन्याश्वासक्तहृदये यस्मिंश्चेधकृदास्पदं मम तेन विना मृत्युरौषधं किमिहा परं स्वरोचिरुवाच कस्त्वां नाभिलषेद्भिरु सानुरागासि कुत्र यदप्रातौ निजान् प्राणान् परित्यक्तुं व्यवस्यसि मृग्युवाच त्वामेवेच्छामि भद्रं ते त्वया मे पहृतं मनः वृणोन्म्यहमदो मृत्युं मयि बाणो निपाद्यतां स्वरोचिरुवाच त्वं मृगी चञ्चलापाङ्गी नररूपधरा वयं कथं त्वया समं योगो मद्विधस्य भविष्यति मृग्युवाच यदि सापेक्षितं चित्तं मयिते माम् परिष्वच यदि वासाधु चित्तं ते करिष्यामि यथेप्सितम् ये तावतासम्भवदा भविष्याम्यधिमानिता मार्कण्डेय उवाच आलिलिङ्गतदस्तां स स्वरोचिर्हरिणाङ्गनां तेन चालिङ्गिदा सद्यः सा भू दिव्यवपुर्धरा तदस्सविस्मयाविष्टक्त्वमिद्धभ्य श्रदा सा चास्मै कथयामासप्रेमलज्जा जडाक्षरम् अह मम्यर्धिता देवैकाननस्यास्य देवता उत्पादनीयो हि मनुस्त्वया मयि महामदे प्रीतिमत्यां मयि सुदं भूर्लोकपरिपालकम् तमुत्पादय देवानां त्वामहं वचनाद्वदे मार्कण्डेय उवाच तदस्स तस्यां तनयं सर्वलक्षणलक्षितं तेजस्विनमिवात्मानं जनयामास तत्क्षणाद जातमात्रस्य तस्याध देववाद्यानि सस्वु जगुर्गंध ननृतुस्परो गण शिशुचुश्चीकृष्य तपोधना देवास् पुष्पर्षं मुचुस् सेज सलोक्य नामचक्रे पिता स्वयं द्विधिमानिडियेनास्य तेजसा भासिता दिशः स बालोद्युदिमान्नामहाबलपराक्रमः स्वरोचिष सुतो यस्मात्तस्मात् स्वारोचिषो भवत् सचापि चापि विचरन् रम्ये स्वरोचिर्दृश्येहंसं निजपत्नी समन्वितम् उवाच स तदाहंसी साभिलाषां पुनःपुनः उपसंह्रियतामात्मा चिरं ते क्रीडितं मया किं सर्वकालं भोगैस्ते आसन्नं चरमं वयः परित्यागस्य कालो मे तव चापि जलेचरी हंस्युवाच अकालको हि भोगानां सर्वं भोगात्मकं जगद यज्ञा भोगार्थं प्राह्मणैः संयदात्मभिः दृष्टा द्रिष्था दृष्टांस्तथा भोगान्वाञ्छमाना विवेकिनः दानानि च प्रयच्छन्ति पूतान्धर्मांश्च कुर्वदे सत्त्वं नेच्छसि किं भोगान् भोगश्चेष्टफलं नृणां विवेकिनां तिरश्चां किं पुनः संयदात्मनां हंस उवाच भोगेष्वासक्तचित्तानां परमार्थान्विदा मदि भविष्यति कदा सङ्गमुपेतानां च बन्धुषु पुत्रमित्रकलत्रेषु सक्तासीदन्तिजन्तवः सरपङ्गार्णवेमग्ना जीर्णा वनगजा इव किं पश्यसि वा भद्रे जातसङ्गं स्वरोचिषम् आबाल्यात् कामसं सक्तं मग्नं स्नेहाम्बुकर्दमे यौवनेदीव भार्यासु साम्प्रतं पुत्रनतृषु स्वरोचिषो मनोमग्नमुद्धारं प्राप्स्यते कुतः नाखम् स्वरोचिषस्तु्यस्त्री वश्यो वाजले चरी विवेकवाश भोगावृस्मी सांप्रतमय उवाच स्वरोचिरेतकर्ण्य चादोद्वेग खगेद आदा भार्त यया वन्यतपोवनं तत्र तप्त्वा तपोखोरं सह ताभिरुदारथीः जगाम लोका लोकानमलान्निवृत्ताखिलकल्मषः यदि श्रीमार्कण्डेयपुराणे स्वारोचिषे मन्वन्तरे षट्षष्टितमोऽध्यायः ओ